इन्द्रकीलम् समासाद्य ततो तिष्ठद्धनञ्जयः अन्तरिक्षेति शुश्रावतिष्ठेति स वचस्तदा तच्छ्रुत्वा सर्वतो दृष्टिम् चारयामास पाण्डवः अथापश्यत्सव्यसाची वृक्षमूले तपस्विनम् ब्राह्म्याश्रियादीप्यमानम् पिङ्गलम् जटिलम् कृशम् सोऽब्रवीदर्जुनम् तत्र स्थितम् दृष्ट्वा महातपाः कस्तुम् तातेः सम्प्राप्तो धनुष्मान् कवचीशरी। शरी निबद्धासितलत्राणः क्षत्रधर्ममनोव्रतः नेहशस्त्रेण कर्तव्यम् शान्तानामेष आलयः विनीतक्रोधहर्षाणाम् ब्राह्मणानाम् तपस्विनाम् नेहास्ति धनुषा कार्यम् न सङ्ग्रामोऽत्र कर्हि चेत् निक्षिपैतद्धनुस्तात गतिम् ओजसा तेजसा वीर यथा नान्यः पुमान् क्वचित् तथा हसन्निवा भीक्ष्णम् ब्राह्मणोऽर्जुनमब्रवीत् न चैनम् चालयामास धैर्यात्सुधृतनिश्चयम् ततः प्रीतः सद्विजः प्रहसन्निवा वरम् वृणीष्वभद्रम् ते शक्रोह मरिसूदन एवमुक्तः सहस्राक्षम् प्रत्युवाच धनञ्जयः प्राजलि प्रणत भूत शूर कुह ईश वै कामो वरम चैनम प्रयछ मे त् भगवन्नस्त्र कृस्नि